ष्टपञ्चाशः सर्गः स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथात्मजः पर्यपृच्छतधर्मात्मा धर्मात्मा वैदेही प्रस्थितम् दण्डकारण्यम् या मामनुजगामः क्व सा लक्ष्मणवैदेहीयाम् हित्वा त्वमिहागतः ज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः क्व सा दुःखसहायामे वैदेही तनुमध्यमा याम् विना नोत्सहे वीरमुहूर्तमपि जीवितुम् क्व सा प्राणसहायामे सीतासुरसुतोपमा पतित्वमवराणाम् हि पृथिव्याश्चापि लक्ष्मणा विना ताम् तपनीयाभाम् जनकात्मजा कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम कच्चित् प्रव्राजनम् वीरन मे मिथ्या भविष्यति सीतानिमित्तम् सौमित्रे मृते मयि गते त्वयि कच्चित्स कामा कैकेयी सुखिता सा भविष्यति स पुत्रराज्याम् सिद्धार्थामृतपुत्रा तपस्विनी उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयी यदि जीवति वैदेही गमिष्याम्याश्रमम् पुनः संवृत्ता यदि वृत्ता सा प्राणाम् स््यक्ष्यामि लक्ष्मणा यदि मामाश्रमगतम् वैदेहीनाभिभाषते पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मणा ब्रूहि लक्ष्मण वैदेहि यदि जीवति वा न वा तपस्विनी सुकुमारी च बाला च नित्यम् च दुःखभागिनी मद्वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः सर्वथा रक्षसातेन जिम्हेन सुदुरात्मना मदता लक्ष्मणेऽत्युच्चैस्तवापि जनितम् भयम् श्रुतश्च मन्ये वैदेह्या सस्वरः मम त्रस्तया प्रेषितस्त्वम् च माम् शीघ्रमागतः सर्वथा तु कृतम् कष्टम् सीतामुत्सृजता वने प्रतिकर्तुम् प्रशंसानाम् रक्षसाम् दत्तमन्तरम् दुःखिताः खरघातेन राक्षसाः पिशिताशनाः तैः सीता निहता घोरैर्भविष्यति न संशयः अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशना करिष्यामि शङ्के प्राप्तव्यमीदृशम् इति सीताम् वरारोहाम् चिन्तयन्नेव राघवः आजगामजनस्थानम् त्वरया सह लक्ष्मणः विगर्हमाणोऽनुजमार्तरूपम् क्षुधाश्रमेणैव पिपासया च विनिश्वसुष्कमुखो विशन्नः प्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् स्वमाश्रमम् वीरो विहार एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे अष्टपञ्चाशः